मुद्गलपुराणम् खण्डम् एय्ट् अध्यायं अध्यायम् सिक्स्टीन् धूम्रवर्णकलिनिर्जयवर्णनम् श्रीगणेशाय नमः शिव उवाच वर्णाश्रमे कलौ नष्टे देवा दुःखसमन्विताः प्रार्थयिष्यन्ति विघ्नेशमुपोषण परायणाः नानातपोन्वितान्वीक्ष्य प्रादुर्भावं गजाननः करिष्यत्यमरान्विप्राः पुरः परमभक्तिदः समागतं गणेशानं धूम्रवर्णधरं प्रभुं द्विभुजं वाजिसंस्थं तं खड्गचर्मप्रधारिणं नानापुष्पमयीं मालां दधानं गन्धचर्चितं दृष्ट्वा सुराः प्रणेमुस्थं नत्वा पूज्य प्रदुष्टुवुः नमस्ते धूम्रवर्णाय नानाखेलकराय च अमेयशक्तये तुभ्यं मायिने धर्मरक्षिणे अनाधानां प्रणाधाय नाथ नाधा नाथाय दे नमः सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः सगुणनिर्गुणाभ्यां च हीनाय योगरूपिणे योगाकारेण सर्वत्र संस्थिताय नमो नमः नरकुञ्जररूपाय धूम्रवर्णधराय च द्विभुजाय अश्ववाहाय हैरम्भाय नमो नमः खड्गचर्मधरायैव नानाचन्दनचर्चित नानापुष्पधरायैव सर्वाध्यक्षाय ते नमः पूर्णाय पूर्णरूपाय गणेशाय परात्मने धर्म रक्षमहाभाग गजानन दे धर्मान्ना अमराः सर्वे सुरेश्वरकृतास्त्वया नष्टे धर्मेऽधुनाथ बुद्धमाया सहायेन कलिना निर्जिदावयं विष्णु विष्णु शम्भुमुखादेवास्तान् पालय महोदर सार्धेन द्विसहस्रेण प्रभो वर्षैर्विनिर्जिताः क्षुद्रदेवाः स्वग्रामस्था कलिना पपलुश्च ते ततः पञ्चसहस्रेण वर्षैस्तास्तीर्थदेवताः तीर्थानि कलिनानाथ जितानि पपलुस्तथा तदो दशसहस्रेण जिता विष्णुशिवादयः कलिनापृथिवीं त्यक्त्वा पपलुर्देवसत्तमाः कर्मा कर्म विकर्माख्या शक्तिस्तत्र स्थिता भवेद विकर्मगुणसंयुक्ता बुद्धमायात्मिका प्रभो त्वमपि त्वादृशो फलदास्थितस्वयं देवरूपधरस्वामिन् सदा कलिप्रवर्तकः नदे दे देवस्वरूपं तु कलिक्रोधसमन्वितः चेत्तुं समुद्यधक्वापि त्वां चिन्तयति सर्वदा तव चिन्तनभावेन वयं सर्वे पराजिताः कलिना उपोषण देव उपोषणयुधाकृताः अधुना लेशमात्रेण धर्मस्तिष्ठति विघ्नव तं हनिष्यति वेगेन कलिपरमदारुणः नष्टे धर्मे गणाधीश अधर्मः केवलो महान् भविष्यदि पुनर्धर्मं किं स्रक्ष्यसि च देवप अदोले धर्मं धर्मं रक्षस्वगणनायक नो चेद्धर्मशरीरास्तु वयं नष्टा भवामहे रक्षरक्षदया सिन्धो धूम्रवर्णगजाननमृत्युप्रायाननाधांश्च देवान् धर्मप्ररक्षकान् यवमुक्त्वा गणाधीशं प्रणेमुरमराः पुनः रुरुदुर्दुःखसंयुक्तांस्तान् जगाद गजाननः धूम्रवर्ण उवाच मा भयं कुरुतप्राज्ञा धर्मं संरक्षयाम्यहं सर्वैरजयमुग्रं तम् कलिं हत्वा विशेषतः भवत्कृतमिदं स्तोत्रं कलिदोषहरं भवेद पठदे शृण्वदे देवाः सर्वसिद्धिप्रदायकं धनधान्यप्रदं पुत्रपौत्र कलत्रादिदायकं। प्रभविष्यति येव एवमुक्त्वा स्वदेहात् स धूम्रवर्णप्रतापवान् निर्ममे विविधां सेनां नानाशास्त्रसमन्वितां नानावाहनगां पूर्णतेजो युक्तां महर्षयः तया युक्तो जनान् सर्वान् जखान मलिनान् प्रभुः म्लेच्छप्रायांश्च विविधान् म्लेच्छान् कलिमलैर्युदान् स्वयं सन्त्राशयामास कलिं धर्मवधेरतं तस्याङ्गवायुना स्पृष्ठा जनाधर्मपरायणाः भययुक्ता गणेशं ते शरणं जग्मुरादराद कलिर्गुप्तस्वरूपेण युयुधे जनसंश्रुतः गणेशैः संहदसोऽपि बभूवः हदोद्यमः ततोभयसमयुक्तं त्यक्त्वा हृज्जन्मिनां कलिः देहधारी समागत्य धूम्रवर्णं ननाम तुष्टावपूज्यतं नत्वा धूम्रवर्णं महाबलं ज्ञात्वा विघ्नेश्वरं भक्र्या हृष्टरोमा महायशाः कलिरुवाचा धूम्रवर्णनमस्तुभ्यं सर्वेभ्यः सुखदायक नानारूपधरायैव विघ्नेशाय नमो नमः अनन्तपादहस्तायानन्दबाहुधराय ते अनन्तमायया गुप्तप्रचारिणे नमो नमः हेरम्पाय नमस्तुभ्यं भक्तसंरक्षकाय च अभक्तभयदात्रेते गणेशाय नमो नमः आदिमध्यान्तहीनायादिमध्यान्तभयाय ते आनन्देभ्यः सदानन्ददायिने वै नमो नमः मायाहीनाय माया, माया आधाराय परात्मने मायिभ्यो मायया मोहदायिने ते नमो नमः कर्मणां फलदात्रे ते ज्ञानिभ्यो ज्ञानदायिने त्न्यान आनन्देभ्यः सदानन्ददायिने वै नमो नमः सहजाय नमस्तुभ्यं स्वानन्दाय समाधये योगाय योगनाथाय ब्रह्मेशाय नमो नमः कस्त्वां स्तोतुं समर्थस्याद्यत्र शान्तिं गदा प्रभो वेदादयो नमाम्येव तेन तुष्टो भवधुना रक्षमां गणनाथत्वं दासं शरणमागतम् अज्ञानयुद्धजं दोषं क्षमस्व करुणानिद्धे एवमुक्त्वा कलिस्तस्य पादं गृह्यपपातः तमुवाच गणाध्यक्षस्वभक्तं शरणार्थिनं धूम्रवर्ण उवाच मा भयं नहन्मि त्वां कदाचन शरणं मां प्रपन्नं च शृणु मे वचनोहदम् स्तोत्रं त्वया कृतं मे यत् कलेर्मलहरं भवेद पठते शृण्वे नित्यं सर्वकामफलप्रदम् अन्ते स्वानन्ददं पूर्णं भविष्यदि कले परम् दृढभक्तिकरं नित्यं योगिभ्यो योगदायकं तिष्टत्वं द्वेषमुत्सृज्य धर्मस्य स्वाधिकारतः कृतप्राप्तिं विजानीहि मदाज्ञावशगो भव तथेति तं नमस्कृत्य कलिस्वस्थानगो भवद धूम्रवर्णो द्विजान् मुख्यान् वसिष्ठादीन् समानयद पुनस्तान् स्थाप्य सर्वे सकृतं तैः सम्प्रवर्तयद स्वयमन्तहितो देवः सर्वेभ्यः सुखदायकः धूम्रवर्णावतारस्य चरितं कथितं मया सर्वसिद्धिप्रदं पूर्णं पठनाश्रवणाद्भवेद ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते धूम्रवर्णकलिनिर्जयवर्णनं नाम षोडशोऽध्यायः ॐ